अथ पञ्चमकाण्डे सप्तमप्रश्नः प्रारम्भः यो वा यथा देवतमग्ञ्जनुतः देवताभ्यो वृष्यदेवापीयान् भवति यो यथा देवतन्मदेवताभ्यः वृष्यदेवदीयान् भवत्या प्रथमाञ्छितिमभिमृशे पृष्ठयाञ्जगत्या पञ्चमीञ्जता देवदमेवात्म्यञ्जन तेन भव एषा विभक्त्या पृथिवैनो धेयो वै प्रजापदय प्रतिपात्याश्वामष्ठेदा कृष्ण उत्तरदश्वेता दक्षिणस्तावालभ्येष्टका उपदध्यादेतत्वे प्रजापते रूपं प्राजाभुच्चश्व साक्षादेव प्रजापदये प्रदिप्राख्याेदश्वत्रि कृष्ण एतदम्बरूपं यदिष्टका रात्रि पुरेशमिष्टका उपधास्येतमश्वमभिमुखे पुरेशमुपधास्य कृष्ण रात्राभ्यामेवेन सौर्याचत्रवत्यावेष्टमेव भवति मध्यञ्जनेश्वमवक्रापयत्यसौवादित्य इन्द्र एष प्रजापदत्राजापत्यामेव साक्षादृग् पामग्ने पृषसञ्जयकृनम् पुनर्यवानञ्जनयन्वपागा यतस्मायो संवत्सरस्य प्रतिमायान् उपासते प्रजाकंसुवीरान् कृत्वा विश्वमायुर्व्यश्च जापत्यामेतामपदातीयम् वा वैशिकाश्च काय देवी काष्ठकायामन्यम् क्रियते च देवी दयावरुन्ध एषा वै प्रजापतेः कामधुकातयैव यजमानामस्मिन् इन्दुहे येन देवा ज्योतिषोर्था उदायनयेनवसरो येन रुद्रा येनाङ्गिरसामहिमानमानशिस्त्येनै यजमानस्वस्ति य वा एष लोकाय जीयते यदत् निर्येण देवा ज्योतिषोत्मा उदायिण्यक्षगोष्टकाय वैता उपधवानस्पत्या सुवर्गस्य लोकस्य समस्यैषदायुधाय सतवीर्याय सदातयेमादिशाहे सो नः शरदो अजीतानिन्द्राने शदतिरिता न विश्वारः पथया नयानान्तराद्या वा तस्मै न देवाः परिदत्तेः सर्वे भ्रीष्म हेमन्तः शरद्वर्षास्तु मि तन्नास्थोषा कृतो नागो शतशारदानान्यवात एषामभयेष्याम निवत्सराय परिवत्सराय संवत्सराय कृमिता बृहन्नमः यज्ञयानाञ्जोगजीताहतास्याम भद्रानर्श्रेयः समनैश्च देवात्मया वशेन समसीमहिता स नामयोगो स्प्य आविश स्वशन्तगाह्यतनुवे ेवता उपददात्येता वै देवता अपराजितास्ता एव प्रविशति नैव जीयते ब्रह्मवासिनो वदन्ति यदर्थ मासामासार्दवत्सर्वस्मादन्याभ्यो देवताभ्याक्रयणं निरप्यत इत्येता एतदेवता उदयत्यर्थमासानेव न्नश्रेयः समनेष्टदेवा इत्याहकार्यायमानस्यापराभावाय इन्द्रस्य वद्रवात्रघ्नस्तनोपानः प्रतिस्पृशः यानक्षिणतः पश्चादुत्तरतो गायुरविदाशच्चेतकोसास्मानमुच्छतु देवासुरासंयत्तासन्ते सुरादिक्वादन्तश्वाच देवा वज्रेण च पानुदन्तयद्वज्रणे पददातिवज्रेण यजमानो भ्रातृव्यानुपुलदेक्षोपदनादिरेव पुरा एव विष्णो सदोषसेमावृद्धन्तु वाङ्िरःभिरागतम् दिना वदन्ति यन्न देवता येजुपत्य जगिन्देवत्यावसोद्धार निर्वसस्त श्रीरा विष्णुर्वशस्त्रीशाधाराग्जु देवाविधेयेनैवेनो समर्थयच्चस एतामेवाहुतिमायतनोतदेवावरुन्दो देवास्य भोरातनोऽस्तान् तेन शमयते सोतारा देवास्य शिवाघनोऽस्तान् देणा देव सोतारायै प्रतिष्ठां वेद प्रत्य राज्यो तस्मिन् ब्रह्मोदनं रां मनस्यैश्वानरो यत्रा एषा धरवात्म प्रियातनो यद्वैश्वानरप्रियायामेवैना धनुवा प्रतिष्ठा वेदजलस्रावध्ययनार्द्यार्ताभिरेवेजमानामस्मिन्लोके इन्दुरे त्यञ्जुहो मनसा भेत्याः सर्वैश्वकर्मणेनवावरुन्धे एतमत्यादि पञ्चाजुहोदि पञ्चाहुत्यायज्ञे समित सप्तदिक्वायत्याहोत्रा एवावरुन्धेभ्योस्तस्मा एतद्वाधेयं रायच्छं नेतद्वाग्ने त्रमेतरिः खलु वा एष जातो यदि सर्वस्थितो जाता स्मान्नमपि ददाति ब्रह्मवादिना वदन्ति यदेशकारभवत्यै प्रूयादेतस्मिनैः सर्वायुपदिय एवं विद्वानत्निञ्जन ते साक्षादेव देवतार्थेयस्मिनैषेमये परमेष्ठी सुव श्लोकास्तु क्षत्रम् पश्यन्तरग्रे तपो दीक्षा मृषेश्व ततः क्षत्रम् परमोदस्य राचन्द तस्मै देवा अभिसन्नमन्तु प्रजापतिः परमेष्ठी विराजान्दाविदो मारे तस्मै राष्ट्रमभिसन्नमाम अभ्यावर्तध्वसाकमयको शास्ताधिपतिर्वास्तु अस्य विज्ञानमनसगौरभ्रमिवम् पश्चादनुजैवात् सर्वे राष्ट्रभृता उपदधाध्येषावाग्ने श्रीराष्ट्रभक्तैवास्मिन् दधाति राष्ट्रमेव भवतिनास्माद् राष्ट्रम् भगवंसदे यथा मयि पुत्रा जाता म्रियत एवं वा एष म्रियते यस्यां कुर्यातिच्छस्याग्निरुक्ष्य उत्पाय मृत्यस्तव कृष्णं वा कृष्णाधेन मृत्युमपहते हिरण्यञ्जताञ्जोतिशयहते ते जो वैरण्यन्ते जवात्मं धत्ते सुवर्णघर्मस्वाहा सुवर्णार्कस्वाहा सुवर्णशुक्रस्वाहा सुवर्ण ज्योतिस्वाहा सुवर्णसूर्य स्वाहा देवताहुते चोत्यर्काश्वमेधयोरेव ज्योतिघोषिसन्ददात्यर्काश्वमेधेत्स एतां प्रथम त्वा यालोकोऽस्तीत्य प्रवेत्स एतान्तामुपाधत्त तदन्तरिक्षमभवत्स यज्ञ प्रजापतिमप्रवेदभत्वा यानि देहलोच्च प्रवेत्स विश्वकर्मा न प्रवेदभत्वा यानीति के नमोपैश्यसीति दिश्याभिरच्च प्रवेत्तं दिश्याभिरुपेत्तापाधत्तरा दिशो भवता स परमेष्ठी प्रजापदिमप्रवेदभक्त्वा यानि दिनेहलोगस्तेत्य प्रवेत्स विश्वकर्माणि चेत्यञ्जा प्रवेदपवामायानि दिनेहलोगस्तेत्य प्रवेदतां तृतीयाञ्चता प्रजापतिमप्रवेदभक्त्वा यानि दिनेऽहलोगस्तीत्य प्रवेत्स विश्वकर्माणि चेत्यञ्जा प्रवेदोपवामायानि लोकोऽस्तीत्य प्रोधाकं परमेश्व प्रवेत् तल्लोकं प्रणयोपेत्तस्मादया दयाम् प्रणायादयामाख्य सामादित्यस्तानुषयो प्रवन्नपयामेतिकेन भूम् एवंचिन ेव भवत्य भीमान् लोकान् चेति भी विदुरेनम् देवात्म एतासामेव बत देवता गच्छति निर्यदग्निक्षिणो स्णीयात्तमेवाग्निमज्ञादात्यमार्च्य संवत्सरं मृदञ्जरे संवत्सर गो हि मृदन्नादि पशुर्वा एषस्य कलवेदं पशुर्य एनं पुरस्तात् प्रत्युञ्जमपजरस्माप्राङ्गीतेज्योति तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यैमापाहि ज्योतिषि ज्योतिर्मे यच्छान्तरिक्ष्यच्छान्तरि पाहि सुरमेच्छदिवञ्षदिव मा पाहित्याहैताभिर्वा इमे लोका विधृताय देता उपदा एषा लोकानां विधृत्ये स्वय मातन्ना उपदाय हिरण्यैष्ठका उपदधा धीमेवै लोका स्वय स्वय मातुर्ना उपदाय हिरण्यैष्ठका उपदधा धीमा नैवेताभिर्लोकाञ्जोधा एताभिरेव स्म इमे लोकाप्रभा ैरुचमध्यतो दिवमाधन्वन्दिरश्मिभिः ताभिः भी सर्वाभिरुचे जनायनस्कृतिः यावो देवाः सूर्यैरुजगोश्वेष्वरुच इन्द्राभिः भी सर्वाभिरुजन्नाधत्त बृहस्पते रुचनाधेः ब्राह्मणेषु ऋचकोराजसुनस्कृतिः विश्वेषु श्रोत्रेषु मैधेः रुचारुजम् ेदा वाग्निंचिज्ञानस्यैष इन्द्रियं गच्छति चिं वाचमी ज्ञानं वा य देताहुतेत्योच्चात्मन्नेवैष इन्द्रियं दत्तैश्वरो वा एषात्यमात्तर्यो णिञ्चिन्वन्नसिक्रामदिदत्त्वायामि ब्रह्मणा मन्दवानैति वारुण्यत्याजुहयाच्छाञ्चरेवैषात्मना हविष्कृता वा एषयो वा एष ैत्राव्यात्मनोधानिरुधस्था कल्पमानये सन्दशिरो ग्रीष्मा दक्षिणः पक्षापक्षगोत्तरपक्ष हे मन्दो मध्यम् गौरवक्षास्थितयोक्षामः रात्राणि एवम् वेदत्रेव तिष्ठति प्रजापदर्वा एतम् एवम् विद्वानत्यम् यदा गोदात्सम्रुतो वामनसो वा सम्भृतम् चक्षुषो वा अमनप्रेः सुकृतस्य लोकम् यत्र ऋषय प्रथमजाये पुराणाः एतकोसधस्थपरितेयमावहाधि यज्ञानीत जानीता यदागच्छा पथिभिद्देवयानैरिष्टा भूर्ते कृणता दाविरस्मि संप्रमसंप्रया देवयानाम् तस्मिन् अद्युत्तरस्मिन् विश्वे देवा यजमानस्य देवेषु गन्तवे यदिष्टम् यत्परादानम् यद्दत्त्या च दक्षिणा तदग्निर्वीश्व येन सहस्रम् वहसि येनाग्ने सर्ववे दतम् तेनैवज्ञेषु गन्तवे येनाग्ने दक्षिणा युक्ता यज्ञम् वहन् यज्ञः तेन यज्ञन्नो वाजुवर्देवेषु गन्तवे ये सुकृतप्रथामथोद्धाराव्यादशो ते नेम यज्ञन्नो वाजुवर्देवेषु गन्तवे यत् उधारा न वेदामथो कृतस्य जयानिर्वैश्वकर्मेषु न ददधत यास्ते अग्ने समिधाया निधामया निष्पाजात वेदो य अर्चिः एते यज्ञे मेडयो वस्तेभिरात्मानञ्जनेः क्रियानन् एते रः किम् वा एतस्य क्रियते किम् वा नयत्वारग्न्तरे तदुनो दिनात्मनोत्तरे जलको समीचिम् ब्रह्म समित्तवत्याहुतीनाम् स्वर्गाय वा एष लोकायोधीयते कुर्मश्चरस्र आशा प्रजलन्वर्णयेत्याहदिश एवैतेन प्रजानादीवन इत्यन्नैव प्रजानन्नित्याह स्वर्गस्य लोकस्याभिनीत्ये ब्रह्म समिद्भवत्याहुतेना देवास्वर्गल्लोकमाय ब्रह्मन्वद्योपददादि ब्रह्मणैव तद्यजमानस्वर्गल्लोकमेति प्रजापतिर्वा एषैदज्ञस्तस्य प्रजापश्छन्द्रिरूपगो सर्वानुवर्णानिश्च प्रजां यस्पोषाय सुप्रजास्वाय सुवीर्याय मयि प्रजा मयि मर्जाीरान्तर्त्यगोहाविवेश गृहेम हैस्कुम परागाद शव नोपतिष्ठन्ते वक्रामुखास्मात् पशुवै गृह्णाम्यग्ने अग्निमित्यात्मन्नेव पशवो वक्रामन्दि ब्रह्मवादिना वदन्ति पश्चात् मृता चाभ्यश्चा निश्चीयत इति वै सर्वादि ेवता देवताभिरेवै नगं मृदा जिनो वा निर्वैस्मादग्निश्चनरायन्मृदा जिनाति तस्मादग्निरुच्यते हिरण्यगाज्योतिर्वै हरण्यञ्ज्योतिरे वा त्यजो वैरन्यवात्मन्धत्तेजो वा सर्वतोमुखम् च नृते सर्वादप्रजास्वन्नमत्य सर्वादिशोऽभिजयति गायत्रीम् पुरस्तात्पददादित्यष्टभम् दक्षिणता जगतीम् पश्चादनष्टभमुत्तरथपङ्क्तिम् मध्य एष वा अग्निः सर्वतोमुखस्त एवम् यत्ता कश्चिनुते सर्वादप्रजास्वन्नमत्य सर्वादिशोऽजयत्येव दिशम् प्रवयति तस्माद्दिशिप्रदा श्वं वृत्या वर्तस्मै वृष्टिं वृत्या वर्ततस्माश्वं वृत्या शीर्षान्यपदधादिताभिरेव यजमानामस्मिन् लोके प्राणिभिरे लोकाप्रभातिमृधादिर्वा एषग्निरन्नं पशव एष षाणि कामयतने योऽकस्यादिति सुन्दरान्दस्य पशुशीर्षान्यपदध्यात्कनीय एवास्यान्नं भवति कामयेत समापदस्यान्न स्यादितिपद्यस्योपदध्यात्समावदेव स्यान्नम् भवति यङ्कामयेन भूयोऽस्यान्नक्रस्यादित्यन्ते शदस्य भ्योऽश्चोपदत्यात एवास्मान्नमारन्धे भूयोऽस्यान्नम् भवति स्थेगान्धकृष्टाभ्याम् मण्डो गाञ्जिम्भेऽभिरादगाङ्खादेनोच्चगंसकंसोदेन अश्वेभिः शर्कराभिरवगामवगाभिः शर्करामुत्सादेन जिह्वापवक्रन्देन तालुकंसरस्वयेम् जिह्वाक्रेण स्तन यत्नम् निर्वाधेन दोर्यात्मीक्षुभ्याम् विद्युलोकनानकाभ्यामशिलम् मस्तिष्केन फलम् मद्यभिः ौर्माञ्छलाभित्यभित्यङ्गाभिर्यभ्याङ्गहाभ्यामयम्बजालाभ्याम् गुहोपक्षाभ्यामस्मि नामरोदाल्मकेन शीर्ष्णा ्राभिर्युगमानतेन चित्तम् मन्याभिस्सङ्कोषान् मित्रावरुणोश्रमेभ्याविन्द्राग्नेन्द्रा <San> बृहस्पतीभ्याविन्द्राविष्णोश्चैवच्छेदर्वाङ्काभ्याम् <-nique> इन्द्रस्य क्रौडोदित्यैपादस्मिन् ोष्णोऽवनिष्ठन्धाहेश्चोर्गदा सत्तान् गदाभिरुतोन्पृष्टे भक्तिमम् पृष्टे नवसूनाम् प्रथमारुत्राणाम् द्वितीयादित्यानाम् तृतीयाङ्ग्रताञ्जित्ये साध्यानाम् पञ्चमे विश्लेषान् देवानागुणष्ठे स्तहेन रुद्रस्य विरस्कन्दो रात्रयोर्धमासानाम्नाम् पञ्चमस्य संवत्सरस्य षष्ठः न्दधनाकामम् वृत्याशाभ्याम् फेकंशि देवभ्याम् प्रतिशमुदा चन्द्रमधौर्यामृलोपदस्नाभ्याम् व्यष्टिरूपेण निमृत्यफलरूपेण अहर्माकोशेन सापो यूषेण कृतकम् ऋषेणस्याम् दिवगम् रूपेण नक्षत्राणि प्रतिरूपेण पृथिवीञ्जन्मीन् शव्योपाकृता यस्ताः लब्धा यस्माः हुता यस्ताः अज्ञयः पक्षतिः सरस्वत्यैनिपक्षतिः सोमस्य तृतीयापाञ्चतुच्यौषधीनाम् पञ्चमे संवत्सरस्य षष्ठे मरुदाकौ सप्तमे बृहस्पतेरष्टमे मित्रस्य नवमे वरुणस्य दशमेऽलस्य एकादशी विश्वेषाम् देवानान्स्य पाटोरः Wow. योपक्षदस्तपक्षदश्चन्द्रमीया नक्षत्राणाम् च तथे च विदः पञ्चमे रुद्रस्य षष्ठे सर्पाणागो यम्नो अष्टमे त्वष्टर्नवेशमेन्द्रण्यायेकादस्य नित्यये द्वादशे पाडोलः हरिमानं ृत्या विपेटकाप्रसादेन कृतस्य लोकन्दस्य देवैकृष्णया योऽस्ते पृष्ठम् पृथिवे सदस्य मात्मान्तरिक्षकौ समित्वा यो निःसूर्य प्राणश्चन्द्रमाश्रोत्रम्मासाश्चार्दमासाश्चानि संवत्सर महिमा अज्ञप्रशुराधेतेनायजन्तस एतल्लोकमलेत्यस्मिन्नस्वदे लोकस्यन्द्येश्वस्य जिघ्रवायुप्रशुराधेतेनायजन्तस एतल्लोकमलेत्यस्मिन् वायस्वदे लोकस्तस्माजिग्रस्यादित्यप्रशुराधेतेनायजन्तस एतल्लोकमलेद्यस्मिन्नादित्यस्वदे लोकश्चन्देश्व इति पञ्चमकाण्डे सप्तमः प्रश्नः समाप्तः